हरि ओम् श्रीसीतारामचन्द्राभ्य नमः अथ श्री अध्यात्मरामायणे अयोध्याकाण्डे पञ्चमः श्री श्रीमहादेव वाच आयान्तं नागरा दृष्ट्वा मार्गे रामम् सज्जानकिम् लक्ष्मणेन समं वीक्ष्य ऊचु सर्वे परस्परम् कैकेयः वरदानानि श्रुत्वा दुःखसमावृता बतरा दशरथ सत्यसन्धं प्रियं सुतम् स्त्रीहेतोरत्य यत्कामि तस्य सत्यात्मना कुतः कैकेयी कथं दुष्टा रामं सत्यं प्रियंगरं गरम् निवासयामास कथम् क्रूरकर्मातिमूढधि हे जनानाश्रवस्तव्यम् गच्छामोऽद्य एव कारणम् यत्र रामः समः स्वभार्यश्च सानुजो गन्तुमिच्छति पश्यन्तु जानकीं सर्वे पादचारेण गच्छति पुम्भिः कदाचित् दृष्ट्वा वा जानकी लोकसुन्दरी सापि पादेन गच्छन्ति जनसङ्घेश्वनावृता रामोऽपि पादचारेण गजाश्वादी विवर्जि गति द्रक्षत विभु सर्वोक सुंदर राय दस विनाशिनी राम भव सीता बलविधि तम प्रयत्नो हि दुर्बल दुखा कुले वृंदे साधूनां मुनिपङ्गवहै अब्रवीत् वामदेवोऽथ साधूनां सङ्गमध्यग मानुषो च मानुषो वा सीतां वा वच्मि तत्त्वतः एष रामः परो विष्णु आदिनारायण स्मृतः एष सा जानकी लक्ष्मी योग मायेति विश्रुता मन्वेति लक्ष्मणाख्य च साम्प्रतम् एष मायागुणयुक्तः तत्तद्दाकारवाण्य दा, एष एव रजो युक्त ब्रह्म भूविश्व भावन सत्ताविष्ट तथा विष्णु त्रिजगत् प्रतिपालकः एष रुद्र तामसोन्ते जगत् प्रलयकारणम् एष मत्स्य पुरा भूत्वा भक्तं वै वै सतम् अनुम् नाव्यारोप्य लयस्य ते पालयामास राघव समुद्रमतने पूर्वम् मन्दरे सुतलं गते आधारय स्वपृष्ठेन्द्रि कुर्मी रघुत्तम महिरथात्रं प्रलये सुकरो भवेत् ोलयामास धन्ष्ट्राग्रे तां कोणीं रघुनन्दन हे नरसिंहं वपु कृत्वा प्रह्लादे वरद पुराय त्रैलोक्य कण्डकं रक्ष पाठयामास तन्नखै पुत्रराज्यं मृतं दृष्ट्वा यदित्या याचितः पुराय वामनत्वम् उपागम्य याञ्च या हरे पुनः दुष्टक्षत्रीय भूभार निवृत्यै भार्गवो भवन् स एव जगतां नाथ इदानीं रामतां गतः रावणादि निरक्षासि कोटिशो निर्णेष्यते मानुषेणैव मरणम् तस्य दुष्टम् दुरात्मनः राज्ञा दशरथेनापि तपसाराधितो हरिः पुत्रत्वाकाङ्क्षया विष्णु तदा पुत्रो भवधरी हरि स एव विष्णु श्रीरामो रावणादेवधाय हि गन्ताव्य वनं रामो, रामो लक्ष्मणेन स एष सीता हरिर्माया सृष्टि स्थित्यन्धकारिणी राजा वा कैके कै वापि नात्र कारणमण्वपि पूरे दूना भूभार हरणात राम सय साक्षा शो गय्यादिश्य चिंताजत राम राय निपंति मनुज भुवि तृत्यु भयादी नी क का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः रामनाम् नैव मुक्तिः स्यात् खलु नान्येन केनचित् माया मानुषरूपेण विडम्बयति लोककरोत् भक्तानाम् भजनार्थाय रावणस्य वधाय च रजश्चाभिच्यर्थम् मानुषम् वपुराश्रितः इत्युक्त्वा विररामाथ वाम देवो महामुनिः श्रुत्वा तेऽपि सर्वे रामम् ज्ञात्वा हरिम् विभुम् जहरुत्संशय ग्रन्थिम् रामम् एवान्वचिन्तयन् यैदं चिन्ते नित्यम् रहस्यम् रामसीतयोः तस्य रामे दृढा भक्तिः भवेद् विज्ञानपूर्विक रहस्यं गोपनीयं वो यूयं वैरागवप्रिया, राघवप्रिया इत्युक्त्वा प्रियो विप्र ते प्रीरामं परं विदुः ततो रामः समाविश्य पितुर्गेऽहमवारितः सानुजसीतया गत्वा कैकेयीमिदम् अब्रवीत् आगतः सो वयं मातः त्रयस्ते सम्मतं वनम् गन्तुं कृते धियं शीघ्रम् आज्ञापयतु न पिताय इत्युक्ता सहस्रोत्थाय चीराणि प्रददो स्वयं रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधय लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानति हस्ति गृहीत्वा लज्जया मुखमैक्षत रामो गृहीत्वा तत् चिरम् अंशके पर्यवेष्टयत् तद्दृष्टा रुरुदुः सर्वे राजदारासमन्ततः वसिष्ठस्तु तदा कर्ण्य रुदितं भस्य कैकेयीं के प्राय दुर्वृत्ते रामैव त्वया वृत वनवासाय दुच्चेतं किं प्रयच्छसि यदि रामम् समन्वेति सीता भक्त्या पतिव्रता सर्व नित्यम् सर्वभरणभूषिता रमयत्त निजम् रामं वरदुःख निवारिणी राजा दशरथोऽप्यः सुमन्त्रम् रथमानय रथम्बरोह्य गच्छन्तु वनं वन चरप्रिया इत्युक्त्वा राममालोक्य सीतां चैव स लक्ष्मणं दुःखान् पतितो भूवौ रुरोदाश्रु परिप्लुतः अरुरोह रतं सीता शीघ्रं रामस्य पश्यतः राम प्रलक्षणं कृत्वा पितरं रथमारोहे लक्ष्मणं लक्ष्मणे खड्गयुगलम् धनुयुगं तथा गृहीत्वा रथमारुह्य नोदयामास सारथिं तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथो ब्रवीत् गच्छ गच्छेति रामेण नोदितु चोदयद्रथम् रामे दूरं गते राजा मूर्छित प्राभुवि औरास्तु बाले वृद्धा च वृद्धा प्र ब्रह्मण सत्तमः तिष्ठ क्रोशन्तु रथमन्वयुः राजा रुदित्वा सुचिरम् मान्नयन्तु गृहं प्रति कौसल्याय राम मातु इत्याह परिचारकान् किञ्चित् कालम् भवेत् तत्र जीवनम् दुःखितस्य मे अतोर्ध्वम् न जीवामि चिरम् रामम् विना ततो गृहम् प्रविश्यैव कौशल्यायापपातः मूर्छितश्च चिराद् बुद्ध्वा तुष्णीम् वैवावतस्थिवान् रामस्तु तमसा तीरं गत्वा तत्रावत्तत् सुखी जलं प्राश्य निराहारो वृक्षमूले सपद्विभुः सीतया सह धर्मात्मा धनुष्पाणि तु लक्ष्मणः पालयामास धर्मस्य मन्त्रेण समन्वितः पौरा सर्वे समागत्य स्थिता तस्य विदूरतः शक्तारामं पुरं नेतुं नो चेत् गच्छामहेवनम् इति निश्चयमाज्ञाय तेषां रामोऽपि विस्मितः नाहं गच्छामि नगरम् एते वै क्लेशभागिनः भविष्यन्तीति निश्चित्य सुमन्त्रम् इदमब्रवीत् इदानीमेव गच्छाम सुमन्त्र रथमानय इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजय आरुह्य राम सीता च लक्ष्मणोऽपि ययुर्धृतम् अयोध्याभिमुखम् दत्त्वा किञ्चित् दूरं सूययौ ते भिरामम् अदृश्यैव प्रातरुत्थाय दुःखिताय रथने मे गतं मार्गं पश्यन्तस्ते पुरं ययो हृदि रामं ससीतं ते ज्ञायन्ते तत्सुरन्वहम् समन्त्रोऽपि रथं शीघ्रं नो दयामास सादरम् पीतान्यपदान् पश्यन् रामः समन्वितं गङ्गातीरं समागच्छ ृङ्गवेरा विदूरतः गङ्गाम् दृष्ट्वा नमस्कृत्य स्मा सानन्दमानसः शिंशप वृक्षमूले स निषदा रघुत्तम ततो गृहोजनैः श्रुत्वा रामागममहोत्सवम् सखायम् स्वामिनम् द्रष्टुम् पश्चात्तूर्णम् समापत फलान्नि गृहीत्वा भक्तिसंयुतः रामस्याग्रहे विनिक्षिप्य दण्डव प्रापत भुवि गुहम् उत्थाप्य तं तूर्णम् राघव परिष्यजै सम्पृष्ट कुशलो रामम् गुहै जन्म धनयो मध्यमये जन्मय नैशालं लोकपावन बभूव पृष्ट्वा सिङ्गम् रघुत्तमम् नैषादराजमेतस्ते किङ्करस्य रघुत्तम वसन्नत्रे वसन्नत्र पालयास्मान् रघुद्वहे आगच्छो नगरम् पावनं कुरु मे गृहम् ग्राणे परमूलानि तदर्थं सञ्चितानि मे अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तमः रामर्त्वा सुप्रीतो वस्त्रं शृणुमे सखे न वीक्ष्यामि गृहं ग्रामं नववर्षाणि पञ्चज तत्सम्मन्येन नो भुञ्जे फलभूलादि किञ्चन राज्यं ममैतत्ते सर्वं तं सखामेति वल्लभे वटक्षीरं समान्नाय जटा बन्धे लक्ष्मणेनाथ सहितो रघुनन्दनः जलमात्रं तु सम्प्राश्य सीतया सह राघवे आश्रुतं कुशपर्णाद्यै शयनं लक्ष्मणेन हि उवास तत्र नगरे प्रासादाग्रह यथा परा ततो दूरे परिगृह्य चापम् त्रपाण्य तूणीरधनु स लक्ष्मण त्र परितो वि गुहेन सार्धं सशरासनेन इति श्रीमदध्यात्मरामायणे मामरे अयोध्याकाण्डे पञ्चमः सर्ग श्रीसीतारामचन्द्रार्पणमस्तु